श्रीमद्भागवत् महापुराणं पञ्चमस्कन्ध अस षष्ठोऽध्यायः ऋषभदेवजी का देहत्यागं राजवाच न नूनं भगव आत्मा रामाणां योगसमेरिते ज्ञानावभर्जितकर्मबीजानामैश्वर्याणि पुनः क्लेशदानि भवितुमर्हन्ति यदीक्षयोपगतानि ऋषिर्वाच सत्यमुक्तं क्विन्ती ह वा एके न मनसोद्धां विस्रम्भणम् मनवस्थानस्य इव सङ्गच्छन्ते तथा चोक्तं न कुर्यात्कर्हचि सख्यं मनसि ह्यनुवस्थिते यद्विस्रम्भाचिराचरणं च स्कन्धतप ऐश्वरम् नित्यं ददाति कामस्य छिद्रं तमनुयेरयः योगिनः कृतमैत्रस्य प्रत्युर्जायेव पुश्चले कावो मन्यर्मदो लोभशोकमोहभयादयः कर्मबन्धस्यन्मूलस्वीकुर्यात् कूनं नु तद्बुध अथैव अखिललोकपाललाभोऽपि जरवदं विलक्षणैर्जलपदं वधूतवेसभाषाचरितैरविलक्षित भगवत्रभावो योगिनां साम्पराय विधिमनुशिक्षयन् स्वकलेवरं जिहासुरात्मन्यात्मानम् असंव्यवहितमनर्थान्तर्भावेनान्वीक्षमाणम् उपरतालो वृत्तिरूपर राम तस्य वा एवं मुक्तलिङ्गस्य भगवतऋषभस्य योगमायावासनया देह इमां जगतिम् अभिमानाभासेन सङ्क्रमणः कोङ्कवेङ्ककुटकान् दक्षिणकर्णाटकान् देशान्यदीक्षयोपगतः कुटकाचलोपवनम् आस्य कृता स्म कवलोन्माद इव मुक्तमूर्धतो संवेत एव विचार अथ सबीरवेगविधूतवेडो विकर्षणजातो गृदावानलस्तद्वनं माले लिहाल च तेन ददाह यस्य किलानुचरितम् उपकार्य कुङ्कवेङ्कुटकानां राजार्हन्नामोपशिक्ष्य कलावधर्म उद्गृश्यमाणे भवितव्येन मुं विमोहित सद्धर्मं पदमकुतोभयमपंहाय कुपथ पाखण्डस्मस मज्जसं निजमनिषया मन्दसंप्रवर्तयिष्यते येन ह वावकलौ मनुजापसदा देवमायामोहिता सा विधि नियोगशौचारित्रविहीना देवहेल नान्यपवृतानि निजनिजेक्षया गृहाणाम् अस्नान आचमनम् अशौच केशोल्लुञ्चनादीनि कलिना अधर्मबहुलेनोपहितं धियो ब्रह्मब्राह्मणि यज्ञपुरुषलोकविदूषकाः प्रायेण भविष्यन्ति ते च ह्यर्वात्तनयां निजलोकयान्ध परम्परयाश्वस्तास्तमस्यन्धे स्वयमेव तृपतिष्यन्ति अयमावतारों रजसोपलुप्तकैवल्योपशीक्षणार्थ तस्यानुगुणान् श्लोकान् गायन्ति अहो भुवः सप्तसमुद्रवत्या द्वीपेषु वर्षेष्वति पुण्यते तत् गायन्ति यत्यज्जनामुरारे कर्माणि भद्राण्यवतारवन्ति अहोनु वंशो यशसा वदात् प्रयव्रतो यत्र पुमान् पुराणः किताबतार कृतावतारपुरुषस आद्य चारधर्मं जदकर्महेतुं को नस्य काष्ठाम् भवस्य योगी यो योगिमाया स्पृहयन्ति दस्ताय ये सद्दया येन कृतभ्रत्नाः इति हस्म सकलवेदलोकदेव ब्राह्मणगवाम् परमगुरोर्भगवत ऋषभाख्यस्य विशुद्धाचरितमीरितं पुंसां समस्तदुर्चरिताभिहरणं परममहामङ्गलायनमिदं मनुश्रद्धयोपचितयानुशृत्या श्रावयति वा विहितो भगवती तस्मिन् वासुदेव एकान्ततो भक्तिरणयोरपि समनुवर्तते यस्यामेव कवय आत्मान्नम् अविरतं विविधविजनसंसारपरितापोपतप्या तप्यमानम् अनुशवनं स्नापयन्तं तथैव पर्यानुवित्यापर्वर्गमात्यन्तिकं परं पुरुषार्थमपि स्वयमासादितं नो देवाद्यन्ते भगवदीयत्वेनैव परिसमाप्तसर्वार्थाः राजन्पतिर्गुरुरलं भवतां यतूनां देवं प्रिय कुलपतिः क्व किं करो वा अस्त्वेवमङ्गभगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हि चे स्मरं नित्यानुभूतनिजलाभनिवृत्ततृष्णश्रेयस्य तद्रचनया चिरसुप्तबुद्धेः लोकस्य य करुणया भयमात्मलोकमाख्यान्नमो भगवते रिसभाय भगवते ते मद्भागवते महापुराणै प्रपञ्चां सहितायां पञ्चमस्कन्धे त्रिशब्देवानुचरते षष्ठोऽध्यायः